अथ चतुः सप्ततितमः सर्गः तौ कबन्धेन तम् मार्गम् पम्पायादर्शितम् वने आतस्थतुर्दिशम् गृह्य प्रतीचीनृवरात्मजौ तौ शैलेश्वाचितानेकान् क्षौद्रपुष्पफलद्रुमान् वीक्षन्तौ जग्मतुर्द्रष्टुम् सुग्रीवम् रामलक्ष्मणौ कृत्वा तु शैलपृष्ठे तु तौ वासम् रघुनन्दनौ पम्पायाः पश्चिमम् तीरम् राघवावुपतस्थतुः तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् अपश्यताम् ततस्तत्र शबर्यारम्यमाश्रमम् तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृताञ्जलिः पादौ जग्राहरामस्य लक्ष्मणस्य च धीमतः पाद्यमाचमनीयम् च सर्वम् प्रादाद्यथाविधि तामुवाच ततो रामश्रमणीम् धर्मसंस्थिता कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः कच्चित्ते नियतः कोप आहारश्च तपोधने कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणी रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता शशंसशबरी वृद्धा रामाय प्रत्यवस्थिता अद्य प्राप्ता तपःसिद्धिस्तव सन्दर्शनान्मया अद्य मे सफलम् जन्म गुरवश्च सुपूजिताः स्वर्गश्चैव भविष्यति स्वयि देववरे रामपूजिते पुरुषर्षभा तवाहम् चक्षुषा सौम्य पूता सौम्येन मानदा गमिष्याम्यक्षयाल्लोकाम्त्वत्प्रसादादरीम् दमा चित्रकूटम् त्वयि प्राप्ते विमानैरतुलप्रभैः इतस्ते दिवमारूढा यानहम् पर्यचारिषम् तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः आगमिष्यति ते रामस्तु पुण्यमिममाश्रमम् स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः तम् च दृष्ट्वा वरान् लोकानक्षयाम् स्वमम् गमिष्यसि एवमुक्ता महाभागैस्तदाहम् पुरुषर्षभा मया तु सञ्चितम् वन्यम् विविधम् पुरुषर्षभा तवार्थे पुरुषव्याघ्रमम् पायास्तीरसम्भवम् एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् राघवः प्राहविज्ञानेताम् नित्यमबहिष्कृता दनोः प्रभावन्ते महात्मना श्रुतम् प्रत्यक्षमिच्छामि सन्द्रष्टुम् यदि मन्यसे एतत्त्ववचनम् श्रुत्वा रामभक्तविनिःसृतम् शबरी, शबरी दर्शयामासतावभू महत् पश्य मे घनप्रख्यम् मृगपक्षसमाकुलम् मतङ्गमनमित्येव विश्रुतम् भावितात्मानो गुरवो मे महाद्युते जुहवाञ्चक्रिरे नीडम् मन्त्रवन्मन्त्रपूजितम् इयम् प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः पुष्पोपहारम् कुर्वन्ति श्रमादुद्वे तेषाम् तपःप्रभावेण पश्याद्यापि रघूत्तमा द्योतयन्ती दिशः सर्वा श्रिया वेद्यतुलप्रभा चिन्तिते चिन्तितेनागतान् पश्य समेतान् सप्तसागरान् कृताभिषेकैस्तैर्न्यस्तावल्कलाः पादपेष्वः अद्यापि न विशिष्यन्ति प्रदेशे रघुनन्दना दे कार्याद्भिमाता कमलय साधम्लान्व ना वै कम वनमद्रोतव्यं श्रुतचा्यभ्युता तक्ष्याम्येत वर तछा्य हम समीपाविता मुनीनामाश्रमो येषा महम् च परिचारिणी धर्मिष्ठन्त वचः श्रुत्वा राघवः सः लक्ष्मणः प्रहर्षमतुलम् लेभे आश्चर्यमिति चाब्रवीत् तामुवाच ततो रामः शबरीम् संशित त्वया भद्रे गच्छ कामम् यथा सुखम् इत्येवमुक्ता जटिला चीरकृष्णाजिनाम्बरा अज्ञाता तो राण भुताशने ज्वलत्पावक संकाशा स्वर्गमेव जगाम दिव्याभयुक्ता दिव्यमुपना दिव्यांबरधरा त्र बूव प्रियदर्शना विराजयती तंदम विद्युत्सौदानी यथ ये सुखता हमी महर्ष तत्पुण्यम् शबरी जगामात्मसमाधिना इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुस्सप्ततितमः